कृष्णयजुर्वेदे <Krishna> क्रमपाठे द्वितीयकाण्डे तृतीयः प्रश्नः प्रारम्भः आदित्येभ्यो भवद्वद्भ्यः भवद्वद्भ्यश्चरुन् भवद्वद्भ्य इति भगवद्वत्भ्यः चरुन्निः निर्वपेत् वपेद्भूतिकामः भूतिकाम आदित्याः भूतिकाम इति भूतिकामः आदित्या वै वा एतम् एतम् भूच्चैः भूत्यै प्रति प्रति मुदन्ते मदन्ते यः योऽलम् अलम् भूच्यैः भूच्यै सन् सन् भूतिम् भोधिं, भूतिम् न प्राप्नोति प्राप्नोत्यादित्यान् प्राप्नोतीति प्रा आप्नोति एव भुवद्वतः भुवद्वतः स्वेन भुवद्वत स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति ते त एवैनम् भूतिम् भूतिम् गमयन्ति नमयन्ति भवति भवत्येव एवादित्येभ्यः आदित्येभ्यो धारयद्वद्भ्यः धारयद्वद्भ्यश्चरम् धारयद्वद्भ्य इति धारयद्वत्भ्यः चरणिः निर्वपेद् उपेदपरुद्धः अपरुद्धो वा अपरुद्ध इत्यपारुद्धः वापरुध्यमानः अपरुध्यमानो वा अपरुध्यमान इत्यपारुध्यमानः आदित्याः आदित्या वै वा अपरोद्धारः अपरोद्धार आदित्याः अपरोद्धार इत्यपारोद्धारः आदित्या अवगमयितारः अवगमयितार आदित्यान् अवगमयितार इत्यवागमयितारः आदित्यानेव एव धारयद्वतः धारयद्वतः स्वेन धारयद्वत इति धारयतेवतः स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति ते त एवैनम् एनम् विशि आध्रत्यनपरुध्यः अनपरुध्यो भवति अनपरुध्यैत्यनपारुध्यः भवत्यदिते अदितेनो अनुमन्यस्व मन्यस्वेति इत्यपरुध्यमानः अपरुध्यमानोऽस्य अपरुध्यमान इत्यपरुध्यमानः अस्य पदम् पदमा आदनीत अदीतेयम् इयम् वै वा अदितिः अदितिरियम् इयमेव एवास्मै अस्मै राज्यम् राज्यमनु अनुमन्यते मन्यते सत्या सत्याशीः आशीरिति आशिमित्याशीः इत्याह आह सत्याम् सत्यामेव एवाशिषम् आशिषम् कुरुते आशिषमित्या आशिषम् कृत इह इह मनः मन इति इत्याह आह प्रजाः प्रजा प्रजा इति प्राजाः एवास्मै अस्मै समनसः समनसः करोति समनस इति मनसः करोत्युप उभप्रेत इतमरुतः मरुतः सुदानवः सुदानव एना सुदानव इति विश्वतिना विश्वतिनाभि अभ्यमम् अमगुम् राजानम् राजानमिति इत्याह आहमारुति मारुती वै वै विट, विट विट् विट् ज्येष्ठः विषैव देवैनम् एन्राष्ट्रेण राष्ट्रेण सम् समर्धयति यः परस्तात् परस्ताद्ग्राम्यवादी परस्ताद। ग्राम्यवादी स्यात् स्यात् तस्य तस्य गृहात् गृहाद्व्रीहीन् व्रीहीणा आहरेत् हरेत् शुक्लान् शुक्लागश्च स कृष्णान् कृष्णाविश्च च वी विचिनुयात् चिनुयाद्ये चिनुयाद ये शुक्लाः शुक्ला, शुक्ला स्युः शिरसम् तमादित्यम् आदित्यम् चरुन् चरुणिः निर्वपपेत् पपेदादित्या आदित्या वै वै विषमेव एवाव अवगच्छति गच्छत्यवगता अवगतास्य अवगतेत्यवागता अस्य विट् विडनवगतम् अनवगतम् राष्ट्रम् अनवगतमित्यनवागतम् राष्ट्रमिति इत्याहुः आहुर्ये ये कृष्णाः कृष्णा स्युः शिरस्तरम् तम् वारुणम् वारुणम् चरुम् चरुणिः निर्वपेद् मारुणम् वै वै राष्ट्रम् राष्ट्रमुभे उभे, उभे एव उभे इत्युभे एव विषम् च स राष्ट्रम् चाव अवगच्छति गच्छति यदि यदि नावगच्छेत् अवगच्छेदिमम् अवगच्छेदित्यवागच्छेत् इममहम् अहमादित्येभ्यः आदित्येभ्यो भागम् भारम् निः निर्वपामि उपाम्या आमुष्माद् अमुष्मादमुष्यै अमुष्यै विशः विशोऽवगन्तोः अवगन्तोरिति अवगन्तोरित्यवागन्तोः निर्वपेद् उपेदादित्याः आदित्या एवैनम् एनम् भागधेयम् भागधेयम् प्रेप्सन्तः भागधेयमिति भागधेयम् प्रेप्सन्तो विषम् प्रेप्सन्त इति प्रा लीप्सन्दः विषम अवगमयन्ति गमयन्ति यदि यदि नावगच्छेत् अवगच्छेदाश्वत्थान् अवगच्छेदित्यवागच्छेत् आश्वत्थान्मयूखान् मयूखान्सप्त सप्तमध्यमेषायाम् मध्यमेषायामुप मध्यमेषायामिति मध्यमा ईशायाम् उपहन्यात् हन्यादिलम् इदमहम् अहमादित्यान् आदित्याम् बध्नामि बध्नाम्या आमुष्मात् अमुष्मादमुष्यै अमुष्यै विशः विशोऽवगन्तोः अवगन्तोरिति अवगन्तोरित्यवागन्तोः इत्यादित्याः आदित्या एवैनम् एनम् बद्धवीराः वद्धवीरा विषम् वद्धवीरा इति बद्धवीराः विषमव अवगमयन्ति गमयन्ति यदि यदि नावगच्छेत् अवगच्छेदेतम् अवगच्छेदित्यवगच्छेत् एतमेव एवादित्यम् आदित्यम् चरुन् शरुण्ः निर्वपेत् उपेदिध्मे विध्मेपि अपि मयूखान् मयूखान्साम् सन्नह्येत् नह्येदनपरुध्यम् अनपरुध्यमेव अनपरुध्यमित्यनपारुध्यम् अवगच्छति गच्छत्याश्वत्थाः अश्वत्था भवन्ति भवन्ति मरुताम् मरुताम् वै त्वा एतत् एतदोजः ओजो यत् यदश्वत्थः अश्वत्थवोजसा ओजसैव एव विषम् विषमव अवगच्छति गच्छति सप्त सप्त भवन्ति भवन्ति सप्तगणाः सप्तगणा वै सप्तगणा इति सप्तगणाः वै मरुतः मरुतो गणशः गणश एव गणश विषमव अवगच्छति गच्छतीति गच्छति देवा वै वै मृत्योः मृत्योरविभयोः अविभयुस्ते ते प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावन् अधावन्तेभ्यः तेभ्य एताम् एताम् प्राजापत्याम् प्राजापत्यागम् शतकृष्णलाम् प्राजापत्यामिति प्राजापत्याम् शतकृष्णलानिः शतकृष्णलामिति शतकृष्णलाम् निरवपत् अवपत्तयाः तयैव एवैषु एष्वमृतम् अमृतमदथात् अदथाद्यः यो मृत्योः मृत्योर्विभीयात् विभीयात् तस्मै तस्मा एताम् एताम् प्राजापत्याम् प्राजापत्याम् शतकृष्णलाम् प्राजापत्यामिति प्राजावत्याम् शतकृष्णलानिः शतकृष्णलामिति शताकृष्णलाम् प्रजापतिमेव प्रजापतिमिति प्रजापतिम् एव स्वेन स्वेन उपधावति धावति सः स एव एवास्मिन् अस्मिन्नायुः आयुर्दधाति दधाति सर्वम् सर्वमायुः आयुरेति एति शतकृष्णला शतकृष्णला भवति शतकृष्णलेति शताकृष्णलाः भवति शतायुः शतायुः पुरुषः शतायुरिति शता शताय। आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति आयुष्येव देवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठति तिष्ठति घृते घृते भवति भवत्यायोः आयुर्वै वै घृतम् घृतमृतम् अमृतकम् हिरण्यम् हिरण्यमायुः आयुश्च चैव एवास्मै अस्मामृतम् अमृतम् च समीचीः समीची दधाति समीचीति समीची तथाति चत्वारि चत्वारि चत्वारि चत्वारि कृष्णलानि चत्वारि चत्वारिति चत्वारि चत्वारि कृष्णलान्यव अवद्यति दिति चतुरवत्तस्य चतुरवत्तस्याप्तैः चतुरवत्तस्येति चतुः अवत्तस्य आप्त्या एकधा एकधा ब्रह्मणेः एकथेत्येकधा ब्रह्मणमुप उपहरति हरत्येकधा एकथैव एतथेत्येताथा एव यजमाने यजमान आयुः आयुर्दधाति दधात्यसौ असावः आदित्यो न वि व्यरोचत देवाः देवाः प्रायश्चित्तिम् प्रायश्चित्त्यमैच्छन् ऐच्छन्तस्मै तस्मा एतम् एतरुम् सौर्यम् सौर्यम् चरुम् चरन्निः निरवपन् अवपन्तेन तेनैव एवास्मिन् अस्मिन्रुचम् रुचमदधुः अदधुर्यः यो ब्रह्मवर्चसकामः ब्रह्मवर्चसकामः स्यात् ब्रह्मवर्चसकाम इति ब्रह्मवर्चसकामः स्यात् तस्मै तस्मा एतम् एततुम् शौर्यम् सौर्यम् चरुम् चरुणिः निर्वपेद् वपेदमुम् अमुमेव आदित्यग्रस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एव एवास्मिन् अस्मिन् ब्रह्मवर्चसम् ब्रह्मवर्चसम् दधाति ब्रह्मवर्चसमिति ब्रह्मवर्चसम् दधाति ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्मवर्चसीति ब्रह्मवर्चसी एव भवति भवत्युभयतः उभयतो रुक्मौ रुक्मौ भवतः भवतौ उभयतः उभयत एव एवास्मिन् एवा अस्मिन् रुचम् ऋचम् दधाति दधाति प्रयाजे प्रयाजे प्रयाजे प्रयाजे कृष्णलम् प्रयाजे प्रयाज इति प्रयाजे प्रयाजे कृष्णलम् जुहोति जुहोति दिग्घः दीर्घ एव दीर्घ इति दिगर्घः एवास्मै अस्मै ब्रह्मवर्चसम् ब्रह्मवर्चसमव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अवरुन्धे वृन्धाज्ञेयम् आज्ञेयमष्टाकपालम् अष्टाकपालम् निः अष्टाकपालमित्यष्टाकपालम् निर्वपेत् वपेत् सावित्रम् सावित्रम् द्वादशकपालम् द्वादशकपालम् भूम्यैः द्वादशकपालमिति द्वादशाकपालम् भूम्यी चरम् शरण्यः यः विन्देय हिरण्यम् हिरण्यम् मा मोपा उपनमेर् नमेदिति इति यत् यदाग्नेयः आर्णेयो भवति भवत्याग्नेयम् आग्नेयम् वै वै हिरण्यम् हिरण्यम् यस्य यस्यैव एव हिरण्यम् हिरण्यम् तेन ना, तेनैव एवैनत् एनद्विन्दते ये विन्दते स वित्रः सा वित्रो भवति भवति स पितृप्रसूतः सवितृप्रसूत एव समितृप्रसूत इति सवितृप्रसूतः एवैनत् एनद्विन्दते विन्दते भौम्यैः भौम्यै चरुः चरुर्भवति भवत्यस्याम् अस्यामेव एवैनत् एनद्विन्दते विन्दत उप उपैनम् एन हिरण्यम् हिरण्यम् नमति नमति वि विवै वा एषः वीर्येणध्यते गृध्यते यः यो हिरण्यम् हिरण्यम् विन्दते विन्दतयेताम् एतामेव एवनिः निर्वपेद् उपेधिरण्यम् हिरण्यम् विद्वा विद्वान नेन्द्रियेण इन्द्रियेण वीर्येण वीर्येणपि व्यर्ध्यते गुध्यतयेताम् एतामेव एवनिः निर्वपेत् उपेद्यस्य यस्य हिरण्यम् हिरण्यम् नश्येत् नश्येत् यदा आग्नेयः आग्नेयो भवति भवत्या आग्नेयम् वै वै हिरण्यम् हिरण्यम् यस्य यस्यैव एव हिरण्यम् हिरण्यम् तेन तेनैव एवैनत् एनद्विन्दति विन्दति सावित्रः सावित्रो भवति भवति सवितृप्रसूतः सवितृप्रसूत सवितर्प्रसूत इति सवितृप्रसूतः एवैनत् येन द्विन्दति इन्दति भूम्यै भूम्यै चरुः चरुर्भवति भवत्यस्याम् अस्याम् वै वा एतत् एतन्नश्यति नश्यति यत् यन्नश्यति नश्यत्यस्याम् अस्यामेव एवैनत् येन द्विन्दति इन्दतीन्द्रः इन्द्रस्त्वष्टुः त्वष्टुः सोमम् अभीषः अपिवत् अभीषहेत्यभिसः अपिवत्सः स विश्वङ् विश्वनवि व्या आर्च्छत् आर्च्छत्सः स इन्द्रियेण इन्द्रियेण सोमपीठेन सोमपीठेनवि सोमपीठेनेति सोम सोमापीठेन व्या आर्ध्यत आर्ध्यतसः उदवमीद, स यत् श्यामाकाः श्यामाका अभवन् अभवन् सः स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावत् अधावत्तस्मै तस्मादेतम् एतकम् सोमेन्द्रम् सोमेन्द्रगश्यामाकम् श्यामाकम् चरुन् चरणिः इरवपत् अवपत्तेन तेनैव एवास्मिन् अस्मिन्निन्द्रियम् इन्द्रियमुम् सोमपीठम् सोमपीठमदधात् सोमपीठमिति सोमापीठम् अदधाद्वि विवयि वा एषः एष इन्द्रियेण इन्द्रियेण सोमपीठेन सोमपीठेनध्यते सोमपीठेनेति सोमापीठेन अध्यते यः यः सोमम् सोमम् वमिति वमि यः यः सोमवामी सोमवामी स्यात् सोमवामीति सोमावामी स्याद्रस्मै तस्मावेतम् एतकम् सोमेन्द्रम् सोमेन्द्रगृहश्यामाकम् श्यामाकम् चरम् चरण्यः न्यनुपपेत् पपेत् सोमम् सोमम् चैव देवेन्द्रम् इन्द्रम् च स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति उपधावति धावति ेव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् सोमपीथम् सोमपीठम् धत्तः सोमपीठमिति सोमापीठम् धत्तो नेन्द्रियेण इन्द्रियेण सोमपीठेन सोमपीठेनपि सोमपीठेनेति सोमापीठेन व्यर्ध्यते वृद्ध्यते यत्सौम्यः सौम्यो भवति भवति सोमपीठम् सोमपीथमेव सोमपीठमिति सोमापीठम् एवाव अवरुन्धे वृन्धे यत् यद इन्द्रः ऐन्द्रो भवति भवतीन्द्रियम् इन्द्रियम् वै अयि सोमपीठः सोमपीठ इन्द्रियम् सोमपीठ इति सोमापीठः इन्द्रियमेव देवसोमपीठम् सोमपीथमव सोमपीठमिति सोमापीठम् अवरुन्धे रुन्धे श्यामाकः श्यामाको भवति भवद्देशः एष वा वसः स सोमः सोमः साक्षात् साक्षादेव साक्षादिति साक्षात् एव सोमपीठम् सोमपीठमव सोमपीठमिति सोमापीठम् अवरुन्धे रुन्धेऽग्नये अग्नये दात्रे दात्रे पुरोडाशम् रोडाशमष्टाकपालम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालनम् निर्वपेत् वपेदिन्द्राय इन्द्रायप्रदात्रे प्रदात्रे पुरोडाशम् प्रदात्र इति प्रादात्रे पुरोडाशमेकादशकपालम् एकादशकपालम् पशुकामः एकादशकपालमित्येकादशाकपालम् पशुकामोऽग्निः पशुकाम इति पशुकामः अग्निरेव एवास्मै अस्मै पशून् पशून्प्रजनयति प्रजनयति वृद्धान् प्रजनयतीति प्राजनयति वृद्धानिन्द्रः इन्द्रः प्रयच्छति यच्छति दधि दधि मधु घुतं, आपोधानाः धाना भवन्ति भवन्त्येतत् एतद्वै वैपशूनाम् पशूनागुं रूपम् रूपेण रूपेणैव एव पशूर्पशूनव अवरुन्धे रुन्धे पञ्चगृहीतम् पञ्चगृहीतम् भवति पञ्चगृहीतमिति पञ्चागृहीतम् भवति पाङ्काहि हि पशवः पशवो बहुरूपम् बहुरूपम् भवति बहुरूपमिति बहुरूपम् भवति बहुरूपाः बहुरूपा बहुरूपा इति बहुरूपाः हि पशवः पशवः समृद्धे प्राजापत्यम् समृद्धा इति समृद्धिः प्राजापत्यम् भवति प्राजावृत्यमिति प्राजापत्यम् भवति प्राजावृत्याः प्राजापत्यापै प्राजापत्याप्राजापत्याः वै पशवः पशवः प्रजापतिः प्रजापतिरेव प्रजापतिरिप्रजापतिः एवास्मै अस्मै पशून् पशून्प्रजनयति यत्यात्मा आत्मा वै वै पुरुषस्य पुरुषस्य मधु मध्वर् यन्मधु मध्वग्नौ अग्नौ जुहोति जुहोत्यात्मानम् आत्मानमेव एव तद तत् तद्यजमानः यजमानोऽग्नौ अग्नौ प्रदधाति प्रधाति पङ्क्त्यौ पङ्क्त्यौ याज्यानुवाक्ये भवतः याज्यानुवाक्ये इति याज्यानुवाक्ये भवतः पाङ्क्तः पान्तः पुरुषः पुरुषःपाङ्क्ताः पशवः <ावोत> पशव आत्मानम् प्षवा एव मृत्योः मृत्योर्निष्क्रीय निष्क्रीयपशून् निष्क्रीयेतिनिः क्रिय पशूनव अवरुन्धे गृन्ध इति रुन्धे देवा वै वै सत्रम् सत्रमासत आसतर्द्धिपरिमितम् वृद्धिपरिमितम् यशस्कामाः वृद्धिपरिमितमित्रुद्धिपरिमितम् यशस्कामास्तेषाम् यशस्कामा इति यशः कामाः तेषागुम् सोमम् राजानम् राजानञ्जषः यश आर्च्छत् आर्च्छत्सः सगिरिम गिरिम् गिरिमुत् उदैत् ऐत्थम् तमग्निः अग्निरनु अनोत् उदैत् ऐत्तौ तामग्नेष्वमोहौ अग्नेशो मौसम् अग्नेशो मावित्यग्नेष्वमौ समभवताम् तौ ताविन्द्रः ता इन्द्रो यज्ञविभ्रष्टः यज्ञविभ्रष्टोन् यज्ञविभ्रष्ट इति यज्ञाविभ्रष्टः अनपराः परैत् अयत्तौ तावब्रवीत् अब्रवीद्याजयतम् याजयतम् मा मेति इति तस्मै तस्मा एताम् एतामिश्लिम् इस्टिम्ह। इश्लिङ्गे निरवपताम् अवपतामाज्ञेयम् आज्ञेयमष्टाकपालम् अष्टाकपालमैन्द्रम् अष्टाकपालमित्यष्टाकपालम् ऐन्द्रमेकादशकपालम् एकादशकपालकम् सौम्यम् एकादशकपालमित्येकादशकपालम् सौम्यम् चरुम् चरुन्तया तयैव एवास्मिन् अस्मिन् तेजः तेज इन्द्रियम् इन्द्रियम् ब्रह्मवर्चसम् ब्रह्मवर्चसमधत्ताम् ब्रह्मवर्चसमिति ब्रह्मवर्चसम् अधत्ताम् यज्ञविभ्रष्ट इति यज्ञाविभ्रष्टः स्यात् तस्मै तस्मा एताम् एतामिष्टिम् इष्टिन्निः निर्वपेद्पेदाग्नेयम् आग्नेयमष्टाकपालम् अष्टाकपालमैन्द्रम् अष्टाकपालमित्यष्टागपालम् ऐन्द्रमेकादशकपालम् एकादशकपालकम् सौम्यम् एकादशकपालमित्येकादशाकपालम् सौम्यम् चलम् शरणत् या आग्नेयः आग्नेयो भवति भवति तेजः तेज एव एवास्मिन् अस्मिन्तेन तेन दधाति प्रधादि यत् यदीन्द्रः अ इन्द्रो भवति भवतीन्द्रियम् इन्द्रियमेव एवास्मिन् अस्मिन्तेन तेन दधाति प्रधादि यत् यत्सौम्यः सौम्यो ब्रह्मवर्चसम् ब्रह्मवर्चसम् तेन ब्रह्मवर्चसमितिर्ब्रह्म वर्चसम् तेना आग्नेयस्य च सौम्यस्य सौम्यस्य च च इन्द्रे च इन्द्रे समाश्लेषयेत् समाश्लेषयेत्तेजः समाश्लेषयेदिति सम् आश्लेषयेत् तेजः चैव एवास्मिन् तस्मिन्ब्रह्मवर्चसम् ब्रह्मवर्चसम् च ब्रह्मवर्चसमितिर्ब्रह्म च समीची समीची दधाति समीची इति समीची तथात्यग्नीशोमीयम् अग्निशोमीयमेकादशकपालम् अग्निशोमीयमित्यग्नीसोमीयम् एकादशकपालन्निः एकादशकपालमित्येकादशकपालम् निर्ववेत् वेद्यम् इयम् कामः कामो नोपनमेत् उपनमेदित्युपानमेत् आग्नेयो वै वै ब्राह्मणः ब्राह्मणः सह स सोमम् सोमम् पिबति पिबति स्वाम् स्वामेव एव देवता देवतागस्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति सा सैव एवैनम् एनम् कामेन कामेन सम् समर्धयदि अर्धयक्विपा उपैनम् एनम् कामः कामो नमति नमत्यग्निशोमीयम् अग्निशोमीयमष्टाकपालम् अग्निशोमीयमित्यग्नीसोमीयम् अष्टाकपालन्निः अष्टाकपालमित्यष्टाकपालम् निर्वपेद् पपेद्ब्रह्मवर्चसकामः ब्रह्मवर्चसकामोऽग्नीशोमोः ब्रह्मवर्चसकाम इति अग्नीशोमावेव अग्नीशोमावित्यग्नीसोमोः एव स्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेतिभागधेयेन उपधावति धावति तौ तावेव एवास्मिन् अस्मिन्ब्रह्मवर्चसम् ब्रह्मवर्चसम् धत्तः ब्रह्मवर्चसमिति ब्रह्मवर्चसम् धत्तो ब्रह्मवर्चसी ब्रह्मवर्चस्येव ब्रह्म वर्चसीति ब्रह्मा वर्तसी एव भवति भवति यत् यदष्टाकपालः अष्टाकपालस्तेन अष्टाकपाल इत्यष्टाकपालः तेन आग्नेयः आग्नेयो यत् यच्छ्यामाकः श्यामाकस्तेन तेन सोमाय समृद्ध्यायि समृद्ध्यै सोमाय वाजिने श्यामाकञ्चनम् चरुणिः निर्वपेत् उपेद्यः यः क्लैब्यात् क्लैब्याद्विभीयात् विभीयाद्रेतः वा एतस्मात् एतस्माद्वाजिनम् वाजिनमपक्रामति अपक्रामत्यथा अपक्रामतीत्यपक्रामति अथैषः एष क्लैब्यात् क्लैब्याद्विभाय सोममेव एव वाजिनम् वाजिनम् ग्रेण स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन भागधे उपधावति धावति सः स एव एवास्मिन् अस्मिन् रेतो वाजिनम् वाजिनम् दधाति दधाति न क्लीबः क्लीबो भवति ब्राह्मणस्पत्यम् ब्राह्मणस्पत्यमेकादशकपालम् ब्राह्मणस्पत्यमिति ब्राह्मणः अपत्यम् एकादशकपालम्निः एकादशकपालमित्येकादशकपालम् निर्वपयेत् वपेद्ग्रामकामः रामकामो ब्रह्मणः रामकाम इति ग्रामाकामः पतिमेव एव स्वेन सेनभागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति सह स एव एवास्मैः अस्मै स जातान् स जातान् प्रा स जातानिति स जातान् प्रयच्छति यच्छति ग्रामी ग्राम्येव एव भवति भवति गणवती गणवति याज्यानुवाक्ये गणवती इति गणावतीः याज्यानुवाक्ये भवतः याज्ञवाक्ये इति याद्यामवाक्ये भवतः स सुजातैरेव सुजातैरिति सा जातैः एवैनम् एनम् गणवन्तम् गणवन्तम् करोति गणवन्तमिति गणावन्तम् करोत्येताम् एतामेव हेवनिः निर्भपेत् भवेद्यः यः कामयेत कामयेत ब्रह्मन् ब्रह्मन्विषम् विषं विनाशयेयम् नाशयेयमिति इति मारुतीयाज्यानुवाक्ये मारुती इति मारुती याज्यानुवाक्ये कुर्यात् याज्यानुवाक्ये इति याज्यानुवाक्ये कुर्याद् ब्रह्मन् ब्रह्मन् इव एव विषम् विषम्भि विनाशयति नाशयतीति नाशयति पर्यम्णे चरुन् चरुणिः निर्ववेत् प्रवेत् स्वर्गकामोऽसौ स्वर्गकामैति स्वर्गाकामः असौ वै वा आदित्यः आदित्योर्यमा अर्यमार्यमणम् अर्यमणमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः स एवैनम् एन किम् स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहाकम् लोकम् गमयति गमयत्यर्यम्णे अर्यम्णे चरम् चरुं, चरन्निः चरुं। निरुपेद् उपेद्यः यः कामयेत कामयेत दानकामाः दानकामा दाना दाना इति दानाकामाः मे प्रजाः प्रजा प्रजा इति प्राजाः स्युरिति इत्यसौ असौ वै आदित्यः आदित्यो ओर्यमा अर्यमायः यः यह खलु खलु वै वै ददाति ददाति सः सो ओर्यमा अर्यमार्यमणम् अर यमनम, अर एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति सः एव एवास्मै अस्मै दानकामाः दानकामाः प्रजाः दानकामा इति दानाकामाः प्रजाः करोति प्रजा इति प्राजाः करोति दानकामाः दानकामा दानकामा इति दानाकामाः अस्मै प्रजाः प्रजा प्रजा इति प्राजाः भवन्त्यर्यम्णे अर्यम्णे चरम् चरम्निः निर्पपेर्पपेद्यः यः कामयेत कामयेतस्वस्ति स्वस्ति जनताम् जनतामियाम् यामिति इत्यसौ असौ वै वा आदित्यः आदित्यो अर्यमा अर्यमार्यमणम् अर्यमणमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति सः स एवम् एनम् तत् गमयति यत्र यत्र जिगमिषति जिगमिषतीन्द्रः इन्द्रो वै वै देवानाम् देवानामानुजावरः आनुजावर आसीत् आनुजावर इत्यानुजावरः आसीत् सः सत्प्रजापतिम् प्रजापतिमुपप्रजापतिमिति प्रजापृतिम् उपाधावत् तस्मै तस्मा एतम् एतमैन्द्रम् ऐन्द्रमानशोकम् आनुशोकमेकादशकपालम् आनुशोकमित्यानोऽशोकम् एकादशकपालनिः एकादशकपालमित्येकादशकपालम् निरवपत् अवपत्तेन तेनैव एवैनम् एनमग्रम् अग्रम् देवतानाम् देवतानाम् परि पर्यणयत् अनयद्बुद्धवती बुद्धवती अग्रवती बुद्धवती इति बुद्धावती अग्रवतीयाज्यानुवाक्ये अग्रवती, अग्रवती इत्यग्रावती राज्यानुवाक्ये अकरोत् राज्यानुवाक्ये इति याज्या अनुवाक्ये अकरोत् बुद्ध्नात् बुध्नादेव एवम् एनमग्रणम् अग्रनुपरि पर्यणयत् यद, अनयद्यः यो राजन्यः राजन्यः अनुजावरः अनुजावरः स्यात् आनुजावर इत्यानुजावरः स्यात्तस्मै तस्मा एतम् एतमैन्द्रम् ऐन्द्रमानुशोकम् आनुशूकमेकादशकपालम् आनुशोकमित्यानोशूकम् एकादशकपालन्निः एकादशकपालमित्येकादशाकपालम् निर्वपेद् वपेदिन्द्रम् इन्द्रमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति सः स एवैनम् एनमग्रम् अग्रजम् समानानाम् समानानाम् परि परिणयति नयति बुद्धवती बुद्धवती अग्रवती बुद्धवती इति बुद्धावती अग्रवती याज्यानुवाक्ये अग्रवती इत्यग्रवती याज्यानुवाक्ये भवतः याज्यानुवाक्ये इति याज्या अनुवाक्ये भवतो बुद्धात् बुद्ध्वादेव एवैनम् एनमग्रम् अग्रम् परि परिणयति नयत्यानुशोकः आनुशोको भवति आनुशोक इत्यानुशोकः भवत्येषा शा। एषा हि शेतस्य एतस्य देवता देवतायः यानुजापरः आनुजापरः आनु समृद्ध्यै आनुजावर इत्यानुजावरः समृद्धेयः समृद्ध्या इति समृद्ध्यैः यो ब्राह्मणः ब्राह्मण आनुजावरः आनुजावरः स्यात् आनु स्यात् तस्मै तस्मा एतम् एतम् वारहस्पत्यम् वारहस्पत्यमानुशोकम् आनुशोकम् चरुन् आनु शरुन्निः निर्भवेत् उपेद्बृहस्पतिम् बृहस्पतिमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोप भागधेयेनेति भागधेयेन उपधावति धावति सः स एवैनम् एनमग्रम् अग्रम् समानानाम् समानानाम् परि परिणयति नयति बुद्धवती बुद्धवती अग्रवती इति बुद्धावती अग्रवती याज्यानुवाक्ये अग्रवती इत्यग्रावती याज्यानुवाक्ये भवतः याज्यानुवाक्ये याज्या अनुवाक्ये भवतो बुध्नात् बुध्नादेव एवैनम् एनमग्रम् अग्रम् परि परिणयति नयत्यानुशोकः आनुशोको भवति आनुशोक इत्यानुशूकः भवत्येषा शा, एषा हि ेतस्य एतस्य देवता देवतायः य आनुजावरः आनुजावरः समृद्ध्यै आनुजावर इत्यानुजावरः समृद्ध्या इति समृद्ध्यैः प्रजापतेस्त्रयस्त्रिविंशत् प्रजापतेरति प्रजापतेः त्रयस्त्रिविंशद्दुहितरः त्रयस्त्रिविंशदिति त्रयः त्रिविंशत् दुहितर आसन् आसन् ताः सोमाय सोमाहिराज्ञे राज्ञे ददात् अददात् तासाम् तासागं रोहिणीम् रोहिणीमुप उपैद् अयत्ताः ता ईर्ष्यन्तेः पुनः पुनरगच्छन् अगच्छन्ताः ता ननु अन्वैद् अयत्ताः पुनः पुनरयाचत अयाचत अस्मै अस्मै न पुनः पुनरददाद् अददात्सः सोऽब्रवीद् अब्रवीदृतम् ततममेश्व अमेश्व यथा यथा समावत्सः समावत्स उपैष्यामि समावत्स इति समावत्सः उपैष्याम्यथा उपैष्यामीत्युपाहेष्यामि अथ ते ते पुनः पुनर्दास्यामि दास्यामीति दास्यामी इति सः स ऋतम् ता अस्मै अस्मै पुनः पुनरददात् अददात् तासाम् तासाम् रोहिणीम् रोहिणीमेव देवोप उपैत् अयित्तम् तञयक्ष्मः यक्ष्मा आर्च्छद् आर्च्छद्राजानम् राजानं राजान यक्ष्मः यक्ष्मा आरदिति आर इति तत् तद्राजयक्ष्मस्य राजयक्ष्मस्य जन्म राजयक्ष्मस्येति राजायक्ष्मस्य जन्म यत् यत्पापीयान् पापीयानभवत् अभवत्तत् तत्पापयक्ष्मस्य पापयक्ष्मस्य यत् पापयक्ष्मस्येति पापायक्ष्मस्य यज्जायाभ्यः जायाभ्यो विन्दत् अविन्दत्तत् तज्जायेन्यस्य ज्यायेन्यस्य यः य एवम् एवमेतेषाम् यक्ष्माणाम् जन्म जन्मवेदवेदनैनम् एनमेते एते यक्ष्माः यक्ष्मा विन्दन्ति यक्ष्मा विन्दन्ति सः स एताः एव नमस्यन् नमस्यन्नुप उपाधावत् तथावत्ताः ता अब्रुवन् अब्रुवन्वनम् वरम् रणामहै रणामहै समावक्षः समावक्षदेव समावच्छ इति समावदेशः एव नः न उपा उपायः अय इति तस्मै इत तस्मा एतम् एतमादित्यम् आदित्यम् चरुम् तेनैव एवैनम् एनम् पापात् पापात्स्रामात् स्रामादमुञ्चन् स्रामाद अमुञ्चनयः यः यह पापयक्ष्वगृहीतः पापयक्ष्वगृहीतः पापयक्ष्मगृहीत इति पापयक्ष्मागृहीतः स्यात् तस्मै तस्मा एतम् एतमाधित्यम् आदित्यम् चरुम् चरुणिः निर्वपेत् उपेदादित्यान् आदित्यानेव एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन जे उपधावति धावति ते त एवैनम् एनम् पापात् पापाच्छ्रामात् श्रमान्मुञ्चन्ति मुञ्चन्त्यमावास्यायाम् मावास्यायाणिः मावास्यायामित्यमावास्यायाम् निर्वपेद् वपेदमुम् अमुमेव एवैनम् एनमाप्यायमानम् आप्यायमानमनु आप्यायमानमित्याप्यायमानम् अन्वा आप्याययति प्यायति नवो नवः नभो नभो भवति नवो नव इति नमः नवः भवति जायमानः जायमान इति पुरोऽनुवाक्या पुरोनुवाक्या भवति पुरोनुवाक्येति पुरः अनवाक्या भवत्यायोः आयुरेव एवास्मिन् अस्मिन्तया तया दधाति दधातियम् यमादित्याः आदित्या अगुंशुम् अगुंशुमाप्याययन्ति आप्याययन्तीति आप्याययन्तीत्याप्याययन्ति इति याज्या याज्याैव एवैनम् एनमेतया एतया प्यायति प्याययतीति प्यायति प्रजापतिर्देवेभ्यः प्रजापतिरिति प्रजापतिः देवेभ्योन्नाद्यम् अन्नाद्यम् व्यादिशत् अन्नाद्यमित्यन्ना अद्यम् व्यादिषत्सः व्यादिशदिति वि आदिशत् सोऽब्रवीत् अब्रवीद्यत् यदिमान् इमाल्लोकान् लोकानभि अभ्यतिरिच्याथै अतिरिच्याथै तत् अतिरिच्याथा इत्यतिरिच्याथै तन्म ममासत् असदिति निधिषत् तदिमान् इमाल्लोकान् लोकानभि अभ्यति अत्यरिच्यत अरिच्यतेन्द्रम् इन्द्रणम् राजानम् राजानमिन्द्रम् इन्द्रमधिराजम् अधिराजमिन्द्रम् अधिराजमित्यधिराजम् इन्द्रग्रः स्वराजानम् स्वराजानम् ततः ततो वै सह स इमान् इमान् लोकान् लोकागश्रेधा रेधादुहत् अदुहत्तत् तत् त्रिधातोः त्रिधातोरिति त्रिधातोः त्रिधातुत्वम् यम् त्रिधातुत्वमिति त्रिधातु त्वम् यम् कामयेत कामयेतान्नादः अन्नादः स्यात् अन्नाद इत्यन्नाहदः स्यादिति इति तस्मै एतम् एतम् त्रिधातुम् त्रिधातुम् निः त्रिधातुमिति त्रै राज्ञे राज्ञे क्रौडाश्रमेकादशकपालम् एकादशकपालमिन्द्राय एकादशकपालमित्येकादशकपालम् इन्द्रायाधिराजाय अधिराजायेन्द्राय अधिराजायेत्यधिराजाय इन्द्राय स्वराज्ञे स्वराज्ञेयम् स्वराज्ञ इति स्वराज्ञे राजायम् अयमिन्द्रः इन्द्रोऽधिराजः अधिराजोऽसौ अधिराज इत्यधिराजः असावीन्द्रः इन्द्रस्वराड् स्वराड् इवान् स्वराडिति लोकान् स्वराड, लोकान् स्वेन लोकान स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति ते त एव एवास्मै एवा अस्मादन्नम् अन्नम् यच्छन्त्यन्नादः अन्नाद एव अन्नाद इत्यन्नादः एव भवति भवति यथा यथा वत्सेन वत्सेन प्रक्ताम् वृत्ताङ्गाम् गाम् दुहे एवमेव एवेमान् इमान् लोकान् लोकान् प्रक्तान् प्रक्तान् कामम् काममन्नाद्यम् अन्नाद्यम् पुनः उत्तानेषु उत्तानेषु कपालेषु कपालेष्वितिपानेषु कपालेष्वधि अधिश्रयधि श्रियत्यजातयावत्वाय अयातयावत्वाय त्रयः अयातयावत्त्वायेत्यजातयामात्वाय त्रयः पुरोडाशाः पुरोडाशा भवन्ति भवन्ति त्रयः त्रय इमे इमे लोकाः लोका येषाम् येषाम् लोकानाम् लोकानामाप्त्यै आप्त्या उत्तर उत्तरः उत्तर उत्तरो ज्यायान् उत्तर उत्तर इत्युत्तरः उत्तरः ज्यायान् भवति भवत्येवम् एवमिव इव हि हिमे लोकाः लोकाः समृद्ध्यै समृद्धि सर्वेषाम् समृद्ध्यादिति समृद्धिः सर्वेषामभिगमयन् अभिगमयन्नव अभिगमयन् इत्यभिगमयन् अवद्यति व्यत्यसंवटकारम् असंवटकारम् व्यत्यासम्बत्कारमित्यशम् वटेकारम् व्यत्यासमनो व्यत्यासमिति अत्यासम् अल्वाह आहारेत्यनिहेदाय देवासुराः संयक्ताः देवासुरादिति देवासुराः संयक्ता सन् संयता इति संयुक्ताः उपान् देवान् देवासुराः असुराजयन् अजयन्ते ते देवाः देवाः पराजिज्ञानाः पराजिज्ञाना असुराणाम् पराजिज्ञाना इति पराजिज्ञानाः असुराणाम् वैश्यम् वैष्यम्प उपायन् आयन्तेभ्यः तेभ्य इन्द्रियम् इन्द्रियम् वीर्यम् हीर्यमप उपाः अक्रामत् न्द्रः इन्द्रोचायत् अचायत्तत् तदनु अन्वक्रामत् अक्रामत्तत् तदवरुधम् अवरुधम् न अवरुधमित्यवारुधम् नाशक्नोत् न शक्नोत्तत् तदस्मात् अस्मादभ्यर्थः अभ्यर्थोचरत् अभ्यर्थ इत्यभि अर्थः अचरत् स प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् अपाधावत् मेतया एतया सर्वपृष्ठया सर्वपृष्ठया याजयत् सर्वपृष्ठयेत् सर्वा पृष्ठया अस्मिन् इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमदधात् ददधाद्यः इन्द्रियकामः इन्द्रियकामो वेद्यकामः इन्द्रियकाम इति इन्द्रियाकामः वेल्यकामः स्यात् तम् तमेतया एतया सर्वपृष्ठया सर्वपृष्ठया याजयेत् सर्वपृष्ठयेति सर्वा देवतास्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति एवास्मिन् अस्मिन्निन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् दधति दधति यत् इलिन्द्राय इन्द्राय राथन्तराय राथन्तराय यदिन्द्राय इन्द्राय बार्हताय बारहताययत् यदेव एवेन्द्रस्य इन्द्रस्य तेजः तेजस्तत् तदेव एवाव इन्द्राय वैराजाय वैराजाय यत् यदेव एव धातुः धातुस्तेजः तेजस्तत् यदेव एवाव अवरुन्धे गृन्धेयत् यदिन्द्राय इन्द्राय शाक्वराय शाक्वराय यत् यदेव एवमरुताम् मरुताम् तेजः तेजस्तत् तदेव एवाव अवरुन्धे वृन्धेयत् यदिन्द्राय इन्द्राय रैवताय दैवताय यत् यदेव एव बृहस्पतेः बृहस्पतेस्तेजः तेजस्तत् तदेव एवाव अवरुन्धे रुन्ध एतावन्ति एतावन्ति वै वै तेजागुंसि तेजागुंसि तानि तान्येव एवाव अवरुन्धे रुन्ध उत्थानेषु उत्थानेषु कपालेषु कपालेऽश्वधि अधिश्रयति श्रयत्ययातयामत्वाय अयातयामत्वाय द्वादशकपालः अयातयामत्वायेत्ययातयामात्वाय द्वादशकपालः पुरोडाशः द्वादशकपाल द्वादशकपालः पुरोडाशो भवति भवति वैश्वदेवत्वाय वैश्वदेवत्वाय समन्तम् वैश्वदेवत्वाय इति वैश्वमेधात्वाय समन्तम् पर्यवद्यति समन्दमिति सम्मन्तम् पर्यवजति समन्दम् पर्यवज्यतीति परि अवज्यति समन्दमेव समन्दमिति सम्मन्तम् एवेन्द्रियम् इन्द्रियम् वीर्यम् धीर्यम् यजमाने यजमाने दधाति दधाति व्यत्यासम् व्यत्यासमनु व्यत्यासमिति वि अत्यासम् आहानिर्दाहाय अनिर्दाहायाश्वः अनिर्दाहायेत्यनिः अश्व ऋषभः ऋषभो वृष्णिः कृष्णिर्भस्तः वस्तः सा सा दक्षिणा दक्षिणा वृषत्वाय वृषत्वायैतयाः पृषत्वायेति वृषात्वाय एतयैव एव यजेत यजेताभिशस्यमानः अभिशस्यमान एताश्च चेत् यद्वै वास्य अस्य देवताः देवता अन्नम् अन्नमदन्ति अदन्त्यदन्ति अदन्त्यो एव एवास्य अस्य मनुष्याः मनुष्या इति मनुष्याः रजनो वै वै कौणेयः कौणेयः क्रतुजितम् क्रतुजितम् जानकिम् क्रतुजितमिति क्रतुजितम् जानकिम् चक्षुर्वण्यम् चुर्वण्यमयात् चक्षुर्वण्मिति चक्षुः तस्मा एताम् एतामिष्टिम् इष्टिम्निः निरवपद् अवपदग्नये अग्नयेभ्राजस्वते भ्राजस्वते पुरोडाशम् प्रोडाशमष्टाकपालम् अष्टाकपालकम् सौर्यम् अष्टाकपालमित्यष्टाकपालम् सौर्यम् चरुम् चरुमग्नये अग्नयेभ्राजस्वते भ्राजस्वते पुरोडाशम् प्रोडाशमष्टाकपालम् अष्टाकपालन्तया अष्टाकपालमित्यष्टाकपालम् तयैव एवास्मिन् अस्मिञ्चक्षुः चक्षुरदधात् अदधाद्यः यश्चक्षुष्कामः चक्षुष्कामः स्यात् चक्षुष्काम इति चक्षुः रामः स्यात् तस्मै तस्मा एताम् एतामिष्टिम् इष्टिन्निः निर्वपेत् भवेदग्नये अग्नयेऽभ्राजस्वते भ्राजस्वदे पुरोडाशं पुरोडासमष्टाकपालम् अष्टाकपालकम् शौर्यम् अष्टाकपालमित्यष्टागपालम् शौर्यम् चरुम् शरुमग्नयेः अग्नये भ्राजस्वदे भ्राजस्वदे पुरोडासम् पुरोडासमष्टाकपालम् अष्टाकपालमग्नेः अग्नेर्वै वै चक्षुषा चक्षुषा मनुष्याभि विपश्यन्ति पश्यन्ति सूर्यस्य सूर्यस्य देवाः देवा अग्निम् अग्निम् चैव एव सूर्यम् सूर्यम् च श्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति तावेव एवास्मिन् अस्मिन् चक्षुः चक्षुर्धत्तः धत्तश्चक्षुष्मान् चक्षुष्मानेव एव भवति भवति यत् राज्ञेयौ आज्ञेयौ भवतः भवतश्चक्षुषी चक्षुषी एव चक्षुषी इति चक्षुषी एवास्मिन् अस्मिन् तत् तत्प्रति प्रतिदधाति दधाति यत् यत्सौर्यः सौर्यो नासिकाम् नासिकान्तेन तेनाभितः अभितः सौर्यम् सौर्यमाज्ञेयौ भवतः भवतस्तस्मात् तस्मादभितः अभितो नासिकाम् नासिकाम् चक्षुषी चक्षुषी तस्मात् चक्षुषि इति चक्षुषी तस्मान्नासिकया नासिकया चक्षुषी चक्षुषि विधृते चक्षुषि इति चक्षुषि विधृते समानी विधृते इति विधृतेः समानीयाज्यानुवाक्ये समानी इति समानी याज्यानवाक्ये भवतः याज्यानवाक्ये इति याज्या अनुवाक्ये भवतः समानम् समानगुं हि हि चक्षुः चक्षुः समृद्ध्यै समृद्ध्या इति समृद्ध्यै उदो वृत्त्याम् तेन जातवेदसम् जातवेदसगुम् सप्त जातवेदसमिति जातावेदसम् सप्तत्वा हरितो रथेः रथे चित्रम् चित्रम् देवानाम् देवानामुत् उदगात् इति पिण्डान् पिण्डान् प्रयच्छति यच्छति चक्षुरेव एवास्मै अस्मै प्रयच्छति यच्छति एव तस्य कस्य तत् तदिति तत् ध्रुवोऽसि अहपुंसजातेषु सजातेषु भूयासम् सजातेष्विति स जातेषु भूयासम् धीरः धीरश्चेत्ताः चेत्तावसुवित् वसुविद्ध्रुवः वसुविति वसुवित् ध्रुवोऽसि असिद्ध्रुवः ध्रुवोऽहम् अहपुंसजातेषु सजातेषु भूयासम् सजातेष्विति स जातेषु भूयासमुग्रः उग्रश्चेत्ता चेत्तावसुवित् वसुविदिति वसुवित् ध्रुवोऽसि असि ध्रुवः ध्रुवोऽहम् अहपुंसुजातेषु सुजातेषु भूयासम् सुजातेष्विति सा जातेषु भूयासमभिभोः अभिभोश्चेत्ताः अभिभोरित्यभिभोः चेत्ता वसुवित् वसुविदामनम् वसुविदिति वसुवित् आमनमसि आमनमित्यामनम् अस्यामनस्य आमनस्य देवाः कामनस्येत्यामनस्य देवा ये ये स जाताः स दाताः कुमाराः स जाता इति सा जाताः कुमाराः समनसः समनसस्तान् समनस महामनसः आमनसः कृधि आमनस इत्यामनसः कृति स्वाहा स्वाहामनम् आमनमसि आमनमित्यामनम् अस्यामनस्य आमनस्य देवाः देवास्येत्यामनस देवायाः या स्त्रियः स्त्रियः समनसः समनसस्ताः समनस इति सा मनसः ताहम् अहम् कामये कामये हृदा हृदा ताः माम् माम् कामयन्ताम् कामयन्तागुम् हृदा हृदा मामनसः आमनसः कृधि आमनस इत्यामनसः कृधिस्वाहा स्वाहा वैश्वदेवीम् वैश्वदेवीगुम् साङ्ग्रहणीम् वैश्वदेवीमिति वैश्वदेवीम् साङ्ग्रहणीम्निः साङ्ग्रहणीमिति साङ्ग्रहणीम् निर्वपेत् वपेद्ग्रामकामः ग्रामकामो वैश्वदेवाः ग्रामकाम इति ग्रामाकामः वैश्वदेवा वै वैश्वदेवा इति वैश्वदेवाः वै सजाताः सुजाता विश्वान् इति स विश्वानेव एव देवान् देवान् स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागधेयेन उपधावति धावति ते तयैव स्मै अस्मै सुजातान् सुजाताम् प्र सुजातानिति स जातान् प्रयच्छन्ति यच्छन्ति ग्रामी ग्राम्येव एव भवति साङ्ग्रहणी साङ्ग्रहणी भवति साङ्ग्रहणीति साङ्ग्रहणी भवति मनोग्रहणम् मनाग्रहणम् वै मनोग्रहणमिति मनः ग्रहणम् वै सङ्ग्रहणम् सङ्ग्रहणम् मनः सङ्ग्रहणमिति साङ्ग्रहणम् मन एव एव स जातानाम् सजातानाम् गृह्णाति सजातानामिति स जातानाम् ध्रुवः ध्रुवोऽसि असि ध्रुवः ध्रुवोऽहम् अहं स जातेषु सजातेषु भूयासम् आदेष्विति स जातेषु भूयासमिति इति परिधीन् परिधीन्परि परिधीनिति परिधीन् परिदधाति दधात्याशिषम् आशिषमेव आशिषमित्याशिषम् एवैताम् एतामा आशास्ते शास्तेऽथो अथो एतत् अथो इत्यथो एतदेव एव सर्वम् सर्वं सजातेषु सुजातेष्वधि सुजातेष्विति स अधिभवति भवति यस्य यस्यैवम् एवम् विदुषः एते परिधयः परिधयः परिधीयन्ते परिधय इति परिधयः परिधीयन्तामनम् परिधीयन्त इति परिधीयन्ते आमनमसि आमनमित्यामनम् अस्यामनस्य आमनस्य देवाः आमनस्येत्यामनस्य देवा इति तिस्रः तिस्राहुतेः आहुतेर्जुहोति आहुतेरित्याहुतिः जुहोत्येतावन्तः एतावन्तो वै वै जाता इति सा जाताः ये महान्तः महान्तो ये ये क्षुल्लकाः क्षुल्लकायाः या स्त्रियः स्त्रियस्तान् तानेव एवाव अवरुन्धे उप अवरुद्धा इत्यवरुद्धाः उपतिष्ठन्ते तिष्ठन्त इति तिष्ठन्ते इर्नवम् नवमैत् नीतम् नवनीतमभवत् नवनीतमिति नवानीतम् अभवद्यत् यदसर्पत् असर्पत्तत् तत्सर्पे सर्पे न भवत् अभवद्यत् यदध्रियत तत् तद्धृतम् घृतमभवत् अभवदश्विनोः अश्विनाः प्राणः प्राणोऽसि प्राणः असि तस्यः पस्यते ते रत्ताम् रत्ताङ्ययोः ययोः प्राणः प्राणोऽसि प्राण इति प्राणः असि स्वाहा स्वाहेन्द्रस्य इन्द्रस्य प्राणः प्राणोऽसि प्राण इति प्राणः असितस्य तस्य ते ते ददातु ददातु यस्य यस्य प्राणः प्राणोऽसि प्राण प्राणः असि स्वाहा स्वाहा मित्रावर्णयोः प्राणः मित्रावर्णयोरिति मित्रावरणयोः प्राणोऽसि प्राण इति प्राणः असितस्य तस्यते ते दत्ताम् दत्ताञ्जयोः ययोः प्राणः प्राणोऽसि प्राण इति स्वाहा स्वाहा विश्वेषाम् विश्वेषाम् देवानाम् प्राणः प्राणोऽसि प्राण असितस्य तस्य ते ददतु ददतु येषाम् येषाम् प्राणः प्राणोऽसि प्राणैः प्राणः असि स्वाहा स्वाहा घृतस्य घृतस्य धाराम् धारामृतस्य अमृतस्य पन्थाम् पन्थामिन्द्रेण इन्द्रेण दत्ताम् दत्ताम् प्रयताम् प्रयताम् मरुद्भिः प्रयतामिति प्रायताम् मरुद्भिरिति मरुद्भिः तत्वा त्वा विष्णुः विष्णुः पर्यपश्यत् अपश्यत्तत् तत्त्वा त्रेणा इडागवि गव्यैरयद् ऐरयदित्यैरयत् पापमानेन त्वा त्वा स्तोमेन स्तोमेन गायत्रस्य गायत्रस्य वर्तन्या वर्तन्योपागुंशोः उपागुंशोर्वीर्येण उपागुंशोरित्युपागुंशोः वीर्येण देवः देवस्त्वा त्वा सविता सवितो सृजतु सृजतु जीवातवे जीवातवे जीवनस्यायै जीवनस्यायै बृहद्रथम् तरयोः बृहद्रथम् तरयोः स्त्वा बृहद्रथम् तरयोरिति बृहद्रथम् तरयोः त्वा त्रिष्टुभः त्रिष्टुभो वर्तन्या वर्तन्या शुक्रस्य शुक्रस्य वीर्येण वीर्येण देवः देवस्त्वा त्वा सविता उत्सृजतु श्रीवदृजीवातवे जीवातवे जीवनस्यायै जीवनस्याय अग्नेः अग्ने स्वामात्रया मात्रया जगत्यै जगत्यै वर्तन्या वर्तन्याग्रयणस्य आग्रयणस्य वीर्येण वीर्येण देवः देवस्त्वा सविता सवितो उत्सृजतु श्रीमदृजीवातवे जीवातवे जीवनस्यायै जीवनस्याया इमम् इममनग्ने रयुषे आयुषे वर्चसे वर्चसे कृधि कृधि प्रियम् प्रियगम् रेतः प्रेतो वरुण वरुणसोम सोम राजन् राजन्निति राजन् मातेव इवास्मि तस्मादिते रदिते शर्म शन्म शर्म यच्छ यच्छ विश्वे विश्वे देवाः देवाजरदष्टिः जरदष्टिर्यथा जरदष्टिरिति जरदष्टिः यथा सत् असदिद्यसत् अग्निरायुष्मान् आयुष्मान् सः सवनस्पतिभिः वनस्पतिभिरायुष्मान् वनस्पतिभिरिवनस्पतिभिः आयुष्मान्तेन तेन त्वा आयुषा आयुषायुष्मन्तम् आयुष्मन्दम् करोमि करोमि सोमः सोमायुष्मान् आयुष्मान् सः स ओषधीभिः ओषधीभिर्यज्ञः ओषधेभिरित्योषधीभिः यज्ञायुष्मान् आयुष्मान् सः स दक्षिणाभिः दक्षिणाभिर्ब्रह्म ब्रह्मायुष्मत् आयुष्मत्तत् तद्ब्राह्मणैः ब्राह्मणैरायुष्मत् आयुष्मद्देवाः देवा आयुष्मन्दः आयुष्मन्तस्ते ते अमृतेन अमृतेन पितरः पितरायुष्मन्दः आयुष्मन्दस्ते ते स्वधया स्वधयायुष्मन्तः स्वधयेतिस्वाधया आयुष्मन्दस्तेन तेन त्वायुषा आयुषायुष्मन्दम् आयुष्मन्दम् करोमि करोमीति करोमि अग्निम् वै वा एतस्य एतस्य शरीरम् शरीरम् गच्छति गच्छति सोमम् सोमगुम् रसो वरुणः वरुणयेनम् एनम् वरुणपाशेन वरुणपाशेन गृह्णाति वरुणपाशेन यदि वरुणपाशेन गृह्णाति सरस्वती सरस्वतीम् वाग् वागग्नाविष्णोः अग्नाविष्णोः आत्मा अग्नाविष्णोरित्यग्नाविष्णोः आत्मा यस्य यस्य जोगज्योगामयति आमयति यः योज्योगामयाभि जोगामयाभिः स्यात् जोगामयावीति ज्योग आमयावी स्याद्यः यो वा वा कामयेत कामयेत सर्वम् सर्वमायुः आयुर्याम् इयामिति तस्मै तस्मा एताम् एताविष्टिम् इष्टिम्निः निर्वपेत् रे आज्ञेयम् आज्ञेयमष्टाकपालम् अष्टाकपालकम् सौम्यम् अष्टाकपालमित्यष्टाकपालम् सौम्यम् शरुम् वारुणम् वारुणम् दृशपालम् दृशपालकम् सारस्वतम् दृशकपालमिति दृशाकपालम् सारस्वतम् शरम् शरुमाज्ञा वैष्णवम् आज्ञा वैष्णवमेकादशकपालम् आज्ञा वैष्णवमित्याज्ञावैष्णवम् एकादशकपालमग्नेः निष्क्रीणाति सोमानात् निष्क्रीणातीति निःक्रीणाति सोमा रसम् रसं वारुणेन वारुणेनैव वा, एवैनम् एनम् वर्णपाशाद् वर्णपाशान्मुञ्जलि वर्णपाशादिति वर्णापाशात् मुञ्जलि सारस्वतेन सारस्वतेन वाचम् वाचम् दधाति दधात्यग्निः अग्निः सर्वाः सर्वा देवताः सर्वा देवताविष्णुः देवता विष्णुर्यज्ञः देवता यज्ञो देवताभिः देवताभिश्च चैव एवैनम् यज्ञेन यज्ञेन यद्णेन च अभिषज्यति भिषद्यद्युत उत यदि यदितासुः पितासुर्भवति पितासुरिदीतासुः भवति जीवति जीवत्येव एव यत् यन्नवम् नवमैर् एतत् अन्नवनीतम् नवनीतमभवत् नवनीतमिति न वानीतम् अभवदिति इत्याज्यम् आज्यमव अवेक्षते ईक्षते रूपम् रूपमेव एवास्य अस्यैतत् एतन्महिमानम् महिमानम् व्याजष्टे व्याजष्टेऽश्विनोः व्याजष्ट इति भिमाजष्टे अश्विनोः प्राणः प्राणोऽसि प्राण प्राणः असीति इत्याह आहाश्विनौ अश्विनौ वै वयि देवानाम् देवानाम् भिशरौ भिषरौ ताभ्याम् ताभ्यामेव एवास्मै अस्मै भेषितम् भेषितम् करोति करोतीन्द्रस्य इन्द्रस्य प्राणः प्राणोऽसि प्राण इति प्राणः असीति इत्याह आहेन्द्रियम् इन्द्रियमेव एवा, एवास्मिन् अस्मिन्नेतेन एतेन दधाति दधातिमित्रावरुणयोः मित्रावरुणयोः प्राणः मित्रावरुणयोरिति मित्रावरुणयोः प्राणोऽसि प्राण इति प्राणः असीति इत्याह आह प्राणापानौ प्राणापानावेव प्राणापानाविति प्राणा अपानौ एवास्मिन् अस्मिन्नेतेन एतेन दधाति दधाति विश्वेषाम् विश्वेषाम् देवानाम् देवानाम् प्राणः प्राणोऽसि प्राण प्राणः असीति इत्याह आह वीर्यम् वीर्यमेव अस्मिन्नेतेन एतेन दधाति दधाति घृतस्य घृतस्य धाराम् धारामृतस्य अमृतस्य पन्थाम् पन्थामिति इत्याह आह यथा यजुः यथा यजुरेव यथायजुरिति यथा यजुः एवैतत् एतद्पावमानेन पावमानेन त्वा आ इत्याह आह प्राणम् प्राणमेव प्राणमिति प्राणम् एवास्मिन् अस्मिन्नेतेन एतेन दधाति दधाति बृहद्रथम् तरयोः बृहद्रथम् तरयोः स्त्वा बृहद्रथम् इत्याह आहौजः ओज एव एवास्मिन् अस्मिन्नेतेन एतेन दधाति गृहाद्विग्नेः अग्ने स्वा त्वामात्रया मात्रयेति इत्याह आहात्मानम् आत्मानमेव एवास्मिन् अस्मिन्नेतेन एतेन दधाति दधा ऋत्विजः ऋत्विजः परि अर्याहुः आहुर्यावन्तः यावन्त एव त्विजः ऋत्विजस्ते तजनम् एनम् विसृज्यन्ति विसृज्यन्ति ब्रह्मणः ब्रह्मणो हस्तम् अस्तमन्वारभ्य अन्वारभ्यपरि अन्वारभ्येद्यनो आरभ्य पर्याहुः आहुरेकथा एकथैव एकथेद्येकाधा एव यजमाने यजमानायुः आयुर्दधति दधति यत् यदेव एव तस्य तस्य तत् तद्धिरण्यात् हिरण्याद्धृतम् घृतम् निः निष्पिबति पिबद्यायोः आयुर्वै वै अमृतकम् हिरण्यम् हिरण्यमृतात् अमृतादेव एवायुः आयुर्णिः निष्पिपति पिबति शतमानम् शतमानम् भवति शतमानमिति शतामानम् भवति शतायुः पुरुषः शतायुरिति शता आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय एवेन्द्रिये इन्द्रिये प्रति प्रति दि, तिष्ठति तिष्ठद्यथो अथो खलु अथो इत्यथो खलु यावतीः यावतीः समाः समा, समा एष्यन् एष्यन्मन्येत मन्येत तावन्मानम् तावन्मानग् स्यात् तावन्मानमिति तावत् मानम् स्यात्समृद्ध्यै समृद्ध्या इमम् समृद्ध्या इति समृद्ध्यै आयुषे वर्चसे वर्चसे कृधि कृति इत्याह आहायुः आयुरेव एवास्मिन् अस्मिन्वर्चः वर्चो दधाति दधाति विश्वे विश्वे देवाः देवा जलदृष्टिः करदृष्टिर्यथा जलदष्टिरिति जरत् अष्टिः यथासत् असदिति इत्याह आह जलदष्टिम् जरदष्टिमेव जलदष्टिमिति जरत् अष्टिम् एवम् एनम् करोति अग्रौत्र अग्निः अग्निरायुष्मान् आयुष्मानिति इति हस्तम् हस्तम् गृह्णाति गृह्णात्येते देवा आयुष्मन्तः आयुष्मन्तस्ते ददेव एवास्मिन् अस्मिन्नायुः आयुर्दधति दधति सर्वम् सर्वमायुः आयुरेति एतीत्येति प्रजापतिर्वरुणाय प्रजापतिरिति प्रजापतिः वरुणायाश्वम् अश्वमनयत् अनयत्सः स स्वाम् स्वाम् देवताम् देवतामार्च्छत् आर्च्छत्सः सपरि पर्यदीर्यत अदीर्यतसः एतम् वारुणम् वारुणम् चतुष्कपालम् चतुष्कपालमपश्यत् चतुष्कपालमिति चतुः गलम् अपश्यत्तम् धन्निः निरवत् अवर्ततः ततो वै वरुणपाशादमुच्यत वरुणपाशादिति वरुणापाशात् अमुच्यत वरुणः वरुणो वै वा एतम् एतम् गृह्णाति गृह्णाति यः योऽश्वम् अश्वम् प्रतिगृह्णाति प्रतिगृह्णाति यावतः प्रतिगृह्णाति इति प्रतिगृह्णाति यावतोऽश्वान् अश्वान्प्रतिगृह्णीयात् प्रतिगृह्णेयात्तावतः प्रतिगृह्णेयादिति प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् चतुष्कपालानिः चतुष्कपालानिति चतुभोगपालान् निर्वपेर् उपेद्वरुणम् वरुणमेव एव स्वेन स्वेन भागधेयेन भागधेयेनोपभागधेयेनेति भागाधेयेन उपधावति धावति सः स एवैनम् एनम् वरुणपाशाद् वरुणपाशान्मुञ्चति वरुणपाशादिति वरुणापाशात् मुञ्चति चतुष्कपालाः चतुष्कपाला भवन्ति चतुष्कपाला इति चतुःकपालाः भवन्ति चतुष्पाद् चतुष्पाद्धि चतुष्पादिति चतुर्पात् शश्वः अश्वःसमृद्ध्यै समृद्ध्या एकम् समृद्ध्या एकाम् वृद्ध्यै एकमतिरिक्तम् अतिरिक्तम् निः अतिरिक्तमित्यतिरिक्तम् निर्वपेद उपेद्यम् यमेव एव प्रतिग्राही प्रतिग्राही भवति प्रतिग्राहीति प्रतिग्राही भवयम् वाम नाध्येति अध्येति तस्माद् अर्थ्येतित्य तस्मादेव एव वर्णभाषात् वर्णभाषान्मुच्यते वर्णभाषादिति वर्णाभाषात् उच्यते यदि यद्यपरम् अपरम् प्रतिग्राही प्रतिग्राही स्यात् प्रतिग्राहीति प्रतिग्राही स्यात् शौर्यम् सौर्यमेककपालम् एककपालमनो एककपालमित्येकाकपालम् अनुनिः निर्वपेद् वपेदमुम् अमुमेव एवादित्यम् आदित्यमुच्चारम् उच्चारम् कुरुते उच्चारमित्युदुच्चारम् कुरुतेपः अपोवभृथम् अवभृथमव अवभृतमित्यवाभृथम् अवैति एत्यप्सु अप्सु वै अप्सित्यपसु वै वरुणः वरुणः साक्षात् साक्षादेव साक्षादिति साक्षात् एव वरुणम् वरुणमव अवयजते यजतेऽपोनप्त्रियम् अपोनप्त्रीयम् शरुम् अपोनप्त्रीयमित्यपहानप्त्रीयम् शरुम् पुनः पुनरेत्य एत्यनिः एत्येत्या इत्या निर्ववेद् ववेदप्सुयोनिः अप्सुयोनिर्वै अप्सयो निरित्यप्सो योनिः वा अश्वः अश्वस्वाम् स्वामेव एवैनम् एनम् योनिम् योनिम् गमयति दि सः स एनम् एनकम् शान्तः शान्त उप उपतिष्ठते तिष्ठत इति तिष्ठते या वामिन्द्रावरुणाः इन्द्रावरुणा यतव्या तनोः तनोस्तया तयेमम् इममगुंहसः अगुम्हसोमुञ्चतम् मुञ्चदया या वामिन्द्रावर्णा इन्द्रावर्णा सहस्या इन्द्रावर्णेदीन्द्रावरुणा सहस्या रक्षस्याः रक्षस्यातेजस्याः तेजस्या तनोः तनोस्तया तयेमम् इममगुंहसः अगम्हसोमुञ्चतम् मुञ्चदङ्ग्यः यो वामिन्द्रावर्णो इन्द्रावरुणावग्नौ इन्द्रावरुणावितीन्द्रावरुणौ अग्नौ स्रामः स्रामस्तम् तम्वाम् वामेतेन एतेनाव अवयजे यजेयः यो वाम् वामिन्द्रावरुणा इन्द्रावरुणाद्विपात्सु इन्द्रावरुणेतीन्द्रावरुणा द्विपात्सु पशुषु द्विपात्सुति द्विपादसु पशुषु चतुष्पात्सु चतुष्पात्सु गोष्ठे चतुष्पात्स्वितिचतुष्पात्सु गोष्ठे गृहेषु गोष्ठ इति गोस्थे गृहेष्वप्सु अप्स्वोषधीषु अप्सित्यपसु ओषधीषु वनस्पतिषु वनस्पतिषु स्रामः सामस्तम् तम् वाम् वामेतेन अवयजे यज इन्द्रः इन्द्रो वै वा एतस्य एतस्यैन्द्रियेण इन्द्रियेणाव अवक्रामति क्रामति वरुणयेनम् एनम् वरुणपाशेन वरुणपाशेन गृह्णाति वरुणपाशेनेति वरुणापाशेन गृह्णाति यः यः पाप्मनाः पाप्मना गृहीतः गृहीतो भवति भवति यः यः पाप्मनाः पाप्मना गृहीतः गृहीतः स्यात् तस्मै तस्मा एताम् एतामैन्द्रावरुणीम् ऐन्द्रावरुणीम् प्रयस्याम् न्द्रावरुणीमित्यैन्द्रावरुणीम् पयस्यान्निः निर्वपेद् वपेदिन्द्रः इन्द्र एव एवास्मिन् अस्मिन् इन्द्रियम् इन्द्रियम् दधाति दधाति वरुणः वरुण एनम् एनम् वरुणपाशात् वरुणपाशान्मुञ्चति वरुणपाशादिति वरुणापाशात् मुञ्चति पयस्याः पयस्या भवति भवत्यः पयो हि हि एतस्मात् एतस्मादपक्रामति अपक्रामत्यथा अपक्रामतीत्यपक्रामति तथैषः एष पाप्मना पाप्मना गृहीतः गृहीतो यत् यद यद्पयस्याः पयस्या भवति भवति पयः पय एव एवास्मिन् अस्मिन् तया तया दधाति अयस्यायाम् पुरोडाशम् पुरोडाशमव अपदधादिधाद्यात्मन्वन्तम् आत्मन्वन्तमेव आत्मन्वन्तमित्यात्मन्वन्तम् एवैनम् एनम् करोति करोत्यथो अथो आयतनवन्तम् अथो इत्यसो आयतनवन्तमेव आयतनवन्तमित्यायतनावन्तम् एव चतुर्धा चतुर्धा वि चतुर्थेति चतुर्धा द्यूहति ऊहति इक्ष्वेव एव प्रति प्रतिष्ठति तिष्ठति पुनः पुनः सम् समूहति मूहति दिग्धः एव दिग्ध अस्मै भेषणम् भेषणम् करोति करोति समूह्य समूह्या वा अवद्यति यदि यथा यथाविद्धम् आविद्धम् निष्कृन्तति आविद्धमित्याविद्धम् निष्कृन्तति निष्कृन्दतीति निः कृन्दति तादृगेव एव तत् तज्ञः यो वामिन्द्रावरुणौ इन्द्रावरुणावग्नौ इन्द्रावरुणावितीन्द्रावरुणौ अग्नौ स्रामः स्रामस्तम् तम् वाम् वामेतेन एतेनाव अवयजे यज इति इत्याह आह दुरिष्याः दुरिष्ट्या एव दुरिष्ट्या इति दुः इष्ट्याः एवैनम् एनम् पाति पाति यः यो वामिन्द्रावरुणा इन्द्रावरुणा द्विपात्सु इन्द्रावरुणेतीन्द्रावरुणा द्विपात्सु पशुषु द्विपात्सुति द्विपादसु वामेतेन एतेनाव अवयजे यज इति इत्याह आहैतावतीः एतावतीर्मैर्वापः पवोषधयः ओषधयो वनस्पतयः वनस्पतयः प्रजाः प्रजाः पशवः प्रजा पशव उपजीवनीयाः उपजीवनीयास्ताः उपजीवनीया इति उपजीवनीयाः एव एवास्मै अस्मै वरुणपाशात् वरुणपाशान्मुञ्चते वरुणपाशान् इति वरुणपाशात् मुञ्चतेति मुञ्चते स रत्नवन्नि रत्नवदिति प्रत्नावत् निकाव्याः काव्येन्द्रम् इन्द्रम् वः वो विश्वतः विश्वतस्परि परीन्द्रम् इन्द्रन्नरः न रैति नरः तन्नः नः सोम सोम विश्वतः विश्वतो रक्ष रक्षाराजन् राजन्नघायतः अघायतैत्यघायतः न ऋष्येत् हृष्येत्त्वावतः त्वावतः सखाः त्वावतैरि त्वावतः सखेति सखाः या ते ते धामानि धामानि दिवि दिवि या या पृथिव्याम् पृथिव्याम् या या पर्वतेषु पर्वतेष्वोषधेषु ओषधीष्वप्सु अप्स्विद्यपोसु ते भिन्नः न विश्वैः विश्वैः सुमनाः सुमना सुमना, दन, सुमना इति सोमनाः अहेडन् राजन् राजन् सोम सोम प्रति प्रतिहव्या हव्या गृभाय गृभायेति गृभाय अग्निसोमा सवेदसा अग्निसोमेत्यग्नी सोमा सवेदसा सहूथी सवेदसे दिशा वेदसा सहूथी वनतम् सहूथी दिसा हूती वनतम् गिरः गिरैगिरः सन्देहत्रा देवत्रा बभूवसुः देवत्रेति देवात्रा बभूवथुरिति बभूवतुः इवमेतानि एतानि दिवि दिवि रोचनानि रोचनान्यग्निः अग्निश्च सोम सोमसक्रतू सक्रतू अधत्तम् सक्रतु इति सा क्रतुः अधद्धमित्यधद्धम् युवगुम् सिन्धूः सिन्धूगुम् रभिशस्तेः अभिशस्तेरमद्याद् भवद्यादग्नेशोमौ अग्नेशोमावमुञ्चतम् अग्नेशोमावित्यग्नीसोमोः अमुञ्चतम् गृभीतान् गृभेतानिति गृभीतान् अग्नेशोमाभिमम् अग्नेशोमावित्यग्नी सोमो इमपुंसु सुमे मे शृणोतम् शृणोतम् वृषणा वृषणा हवम् हवमिति हवम् प्रतिसोक्तानि सोक्तानि हर्यतम् सोक्तानीति सो उक्तानि हर्यतम् भवतम् भवतम् दाशुषे दाशुषे मयः मय इति मयः आन्यम् अन्यम् दिवः दिवो मातरिष्वा मातरिश्वा जभार जभारामथ्नात् अमथ्नादन्यम् अन्यम् परि परिश्येणः अग्निसोमेत्यज्ञीयै सोमाः ब्रह्मणा वावृधाना वावृधानोरुम् रुञ्जाय यज्ञाय चक्रथुः चक्रथुरु लोकम् लोकमिति लोकम् अग्निसोमा हविषः अग्नीसोमेत्यज्ञीयै सोमाः हविषः प्रस्थितस्य प्रस्थितस्य पीतम् प्रस्थितस्येतिप्रास्थितस्य अर्यतम् ऋषणा कृषणा जुषेधाषेधामिति जुषेधाम् सुषर्माणा स्ववसा सुषर्माणेऽदिषु शर्माणा स्ववसा हि स्ववसेतिसु अवसा हि भूतम् भूतमथ अथा, अथा धर्तम् धर्तम् यजमानाय यजमानाय शम् शञ्योः योनित्योः आप्यायस्व प्यायस्वसम् सन्ते तैलिरे गणानाम् त्वा गणपतिम् गणपतिगुम् हवामहे गणपतिमिति गणापतिम् हवामहे कविम् कविम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवहातमम् ज्येष्ठराजम् ब्रह्मणाम् ज्येष्ठराजमिति ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः ब्रह्मणस्पते तथा नः न शृण्वन् शृण्वन्नोतिभिः कोतिभिः सीद ओतिभिर्ज्योतिभिः साधनमिति सादनम् स इज्जनेन जनेन सह स विषा विषासः स जन्मना जन्मना सह भरते भरते धनाः धना नृभिः नृभिरिदृभिः देवानाञ्यः यः पितरम् पितरमाविवासति आविवासति श्रद्धामनाः आविवासतीत्याविवासति श्रद्धामना हविषा श्रद्धामना इति श्रद्धामनाः हविषा ब्रह्मणः ब्रह्मणस्पतिम् पतिमितिपदिम् स सुष्टुभा सुष्टुभासः सुष्टुभेदिसोऽस्तुभा स ऋत्पदा गणेन गणेन फलम् रुतो फलिगम् फलिगम् रवेण रवेणे तिरवेण बृहस्पतिरुश्रियाः रुस्रिया हव्यसूदः हव्यसूदः कनिक्रदत् हव्यसूद इति हव्यासूदः कनिक्रदद्वावशतीः द्वावशतीरुत् उदाजत् आजदित्याजत् मरुतोयत् यद्ध हवः वो दिवः दिवो या यावः वः शर्म शर्मेति शर्म हर्यमायाति आयाति याति वृषभः वृषभस्त्वविष्मान् तुविष्मान् दाता दाता वसूनाम् वसूनाम् पुरुहूतः पुरुहूतो अर्हन् पुरुहूत इति पुरोहूतः अर्हन्नित्यर्हन् सहस्राक्षो गोहोत्रभिद् सहस्राक्ष इति सहस्राक्षः गोत्रभिद्वज्रबाहुः गोत्रभिदिति गोत्राभिद् वज्रबाहुरस्मासो वज्रबाहुरिति वज्राबाहुः अस्मासु देवः देवो द्रविणम् द्रविणम् दधातु दधात्विति दधातु एतेर्यमन् अर्यमन् बहवः बहवो देवयानाः देवयानाः पन्थानः देवयाना इति देवायानाः पन्धानो राजन् राजन् दिवः इव आचरन्ति आचरन्तीत्या आचरन्ति ते भिर्नः नो देव देवमहि नहि शर्म शर्म यच्छ यच्छसम् शन्नः न एभि एधिपदेः विपदेशम् विपद इति द्वीपदेः सञ्जतुष्पदे चतुष्पद इति चतुःपदेः बुध्नादग्रम् अग्रमङ्गिरोभिः भे, पर्वतस्य दृगृम्हितानि त्रिगुङ्तान्यैरत् ऐरदित्यैरत् वृजद्रोधा पुंसि कृत्रिमाणि कृत्रिमाण्येषाम् एषा कुंसोमस्य सोमस्य ता, ता इन्द्रश्चकार चकारेति चकार बुद्धादग्रेण अग्रेणपि विमिमाय विमायमानैः मातैर्वज्रेण वज्रेण खानि खान्यतृणत् अतृणन्नदीनाम् नदीनामिति दीनाम, पृथासृजत् असृजत्पथिभिः पथिभिर्दीर्घयाथैः पथिभिरिति पथिभिः दीर्घयाथैः सोमस्य दीर्घयाथैरिति दीर्घयाथैः सोमस्य ता तामदे मद इन्द्रः इन्द्रश्चकार चकारेति चकार प्रयः यो जज्ञे यज्ञे विद्वान् विद्वागुम् अस्य अस्य बन्धुम् विश्वानि विश्वानि देवः देवो जनिमा जनिमा विभक्ति विभक्तेति विभक्ति ब्रह्म ब्रह्मणः ब्रह्मणवत् उज्जभार जभारमध्यात् उध्यान्नीचा नीचादुच्चा उच्चा स्वधया स्वधयाभि स्वधयेदि स्वाधया अभिप्रतस्थौ तस्थाविदितस्थौ महान्मही मही, मही अस्तभायत् मही इति मही अस्तभायद्वि विजातः जातोऽद्या जातुम् सद्म सद्मपार्थिवम् वं, पार्थिवम् च शरजः रजय गिरजः स बुध्नात् उध्धार, बुध्नादाष्ट आष्टजनुषाः जनुषाभि अभ्यग्रम् अग्रम् बृहस्पतिः यस्य यस्य सम्राट् सम्राट् यो अग्रम् अग्रमभ्यर्थि अभ्यर्थ्योजसा अभ्यर्थीत्यभि अर्ति ओजसा बृहस्पतिम् बृहस्पतिमा आभिभाषन्ति विभासन्ति देवाः देवायि देवाः भिनद्वलम् विपुरः दे, पुरो दर्दरीति दर्दरीति कलिक्रदत् कलिकृदत्सुवः सुवरपः अपोजिगाय जिगायेति जिगाय ण्डे तृतीयः प्रश्नः समाप्तः